ब्रह्माण्डपुराणं पूर्वभागः अध्यायं ट्वेल् अग्निचयः सूत उवाच यो सावग्नेरभिमानी स्मृतस्वायम्भुवेन्दरे ब्रह्मणो मानसपुत्रस्तस्मात् स्वाहाव्यजायत पावकं पवमानं च शुचिरग्निश्च यः स्मृतः निर्मध्यः पवमानस्तु वैद्युद्धः पावकस्मृतः शुचिस्सौरस्तु विज्ञेयः स्वाहा पुत्रास्तु ते त्रयः निर्मध्यः पवमानस्तु शुचिस्सौरस्तु स्मृतः अभ्यो निर्वैद्युतश्चैव तेषां स्थानानि तानि वै पवमानात्मजश्चैव कव्यवाहन उच्यते पावकिस्सह रक्षस्तु हव्यवाहशुचे सुतः देवानां हव्यवाहोऽग्निः पितॄणां कव्यवाहनः सह रक्षोऽसुराणां तुत्रयाणां तुत्रयोग्नयः एतेषां पुत्रपौत्रास्तु चत्वारिंशन्न वैवतु वक्ष्यामि नामभिस्तेषां प्रविभागं पृथक् पृथक् विश्रुतो प्रथमो ब्रह्मणः ब्रह्मो भरदो नाम विश्रुतः वैश्वानरसुतस्तस्य वहन्हव्यं समाशतं संवृद्धो धर्वणापूर्वमेधितिपुष्करो दधौ सोऽधर्वालौकिकोऽग्निस्तु दर्पहाधर्वण स्मृतः अथर्वादु भृगुर्जज्ञेह्यग्निराधर्वणस्मृतः तस्मात् स लौकिकोऽग्निस्तु दध्यङाधर्वणो मतः आधर्वः पवमानस्तु निर्मध्यकविभिः स्मृतः सज्ञेयो गार्हपत्योऽग्निस्तस्य पुत्रद्वयं स्मृतम् शंस्यस्त्वाहवनीयोऽग्ने स्मृतो योऽहव्यवाहनः द्वितीयस्तु सुतः प्रोक्तसुगोऽग्निर्यः प्रणीयते तथा सव्यापसव्यौ च शंस्यस्याग्नेः सुतावभौ शंस्यस्तु षोडशनदीश्चकमेहव्यवाहनः योऽसा वाघवनी योऽग्निरभिमानीद्विजयि स्मृतः कावेरीं कृष्णवेणां च नर्मदां यमुनां तथा गोदावरीं विधस्तां च विपाश्यां कौशिकीं चैव शतद्रुं सरयूं तथा सीतां सरस्वतीं चैव ह्रादिनीं पावनीं तथा तासु षोडशधामानं प्रविभज्य पृथक् पृथक् आत्मानं व्यधात्तासु चारिणी षण बुवस कृत्ति ज्ञता षु जिरे यस्माषयस्ते नीर्तिदे वै नदी षेज् तेषां विहरणीया ये उपस्थेयाश्च येग्नयः तान् तृणुत्वं समासेन कीर्त्यमानान्यथा तत्थम् विभुः प्रवाकणोऽग्निध्रस्तत्रस्थाधिष्णयो परे विधीयन्ते यथास्थानम् सूत्याहे सवने क्रमाद अनुद्देश्य निवास्यानामग्नीनां शृणुदक्रमं सम्राडग्निं कृशानुर्यो द्वितीयोऽन्तरवेदिकः सम्राडग्नमुखानष्टौ उपतिष्ठन्ति तान् द्विजान् परिषत् पवमानस्तु द्वितीयसोऽनुदिश्यते प्रतल्कान्यो नभो नाम विभाव्यदे। सौविभाव्यते हव्यस्तदोह्यसमृष्टशामित्रेऽग्नौ विभाव्यते ऋदुधामा च सुज्योतिरौदुम्भर्यः प्रकीर्त्यते विश्वव्यचासमुद्रोऽग्निर्ब्रह्मस्थाने सकीर्त्यते ब्रह्मज्योतिर्वसुर्धामा ब्रह्मस्थाने स उच्यते अजैकपादुपस्थो यः स वैशाल सुखीयकः अनुद्देश्यो ह्यहिर्बुध्न्यो सोऽग्निर्गृहपदिस्मृतः शंस्यस्य इदे सुताः सर्वे उपस्थेयाद्विजयि स्मृताः ततो विकरणीयांश्च वक्ष्याम्यष्टौ च तत्सुतान् विभुप्रवाहणोऽग्निद्रस्तेषाम् धिष्ण्यस्तथा परे विधीयन्ते यथास्थानं सौत्येह्निशवने क्रमाद होत्रीयस्तु स्मृदेह्यग्निर्वह्निर्यो हव्यवाहनः प्रशान्तोऽग्निप्रचेतास्तु द्वितीयश्चात्र नामकः तदग्निवश्वेवस्तु ब्राह्मण्चिच्य उशिग्निकस्तु पौदोग्निस्व्य से आिव्य स विभ्य से अवस्फोर्जो विवस्वास्त आस्थ स उच्यसे अष्ट सुध्युरग्निभ्यो मार्र्जा स उच्य से सऊतेज्यंत वै दिज अो निस्मृत सौ सख्युनामा सदो यः पावको नाम्ना अब्जो यो गर्भ उच्यते अग्निसोवभृथे ज्ञेयो वरुणेन सहेज्यते हृच्छयस्तत्सुतो ह्यग्निर्जठरे यो पचन् मृत्युमाञ्चाठरस्याग्नेर्विद्वानग्निः सुदस्मृतः परस्परोद्धितः सोऽग्निर्भूदानीह विनिर्दभेद पुत्रस्त्वग्नेर्मन्युमदो घोरः संवर्तकस्मृतः पिपन्नपः समुद्रे वडवामुखः समुद्रवासिनः पुत्रस्सह रक्षो विभाव्यते सह रक्षसुदह क्षामो गृहाणां दहदे नृणां क्रव्यादग्निः सुदस्तस्य पुरुषा न्यो मृदान् इत्येते पावकस्य पुत्रा एव तदशुचिस्तु वैसौरो गन्धर्वैरायुराहुतः मधिदो यस्त्वरण्याञ्च सोऽग्निरग्निं समिन्धी आयुर्नाम्नादु भगवानसौ यस्तु प्रणीयते आयुषो महिषपुत्रः सहसो नाम तत्सुधः पाकयजेशेम सोग्नेह सस्मृता पुत्रस् सहसद्भुत स महायश पुत्रोग्नेस्तु पुत्रेस्त महांस्मृता प्रायश्चित्तेष्वभिमानीहुदम्भुङ्क्ते हविः सदा विविधेस्तु सुदो ह्यर्कस्तस्य चाग्नेः इमे अनीकवान्वाजसृक् रक्षोहा चष्टिकृ सुरभिर्वसुरन्नादो प्रविष्ठो यः स शुचेरग्नेः प्रजाह्येष वह्नयश्च च दुर्दश इत्येते चाग्नयः प्रोक्ताः प्रणीयन्ते ध्वरेषु वै आदिसर्गे व्यतीता वै या मयि सहसुरोत्तमैः स्वायम्भुवेन्दरे पूर्वमग्नयस्तेभिमानिनः ये देविहरणीयेषु चेतनाचेदनेषु वै स्थानाभिमानिनो लोके प्रागाः सन् कव्यवाहनाः काम्यनैमित्तिकायज्ञेष्वेदे कर्मस्वस्थिताः पूर्वमन्वतरेतीता शुक्रैर्यागैश्च तैः सह देवैर्महात्मभिः पुण्यैः प्रथमस्यां तरे मनोहो इत्येतानि मजोक्तानि स्थानानिष्ठानि नश्चः तैरेव तु प्रसङ्ख्यादमधीतानाकतेष्विह सन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् सर्वे तपस्विनोख्ये दे सर्वे ब्रह्मभृथस्तथा प्रजानां पदयः सर्वे ज्योतिष्मं तश्च स्मृताः स्वारोचिषादिषु ज्ञेया सावर्ण्यं तेषु सप्तसु मन्वन्तरेषु सर्वेषु नामरूपप्रयोजनैः वर्तन्ते वर्तमानैश्च यामैर्देवैः सहाग्नयः अनागतैः सुरैः सार्धं वर्स्यन्ते नागदाग्नयः इत्येष निचयोग्नीनामनुक्रान्तो यदाक्रमं क्रमं विस्तरेणानुभूर्व्या च पितॄणां वक्ष्यते पुनः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे अग्निचयो नाम त्वादशोऽध्यायः ओ